उपासना उपासनाखंडम अध्या 13. व्यास उवाच पंचाचराश्यहस्रमस्तक वरदम दें कथ में प्रुभु ब्रह्मोवाच प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणाद प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा ब्रह्मविष्णुमहेशा ऊचुः अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्दपूर्णम् परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेमा गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यं मुनिध्येयमाकाशरूपं परेश्यम् परब्रह्मरूपं गणेशं भजेम जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशं जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम प्रजो योगदो ब्रह्मरूपं श्रुतिज्ञं सदाकार्यसक्तं कार्यशक्तं हृदाचिन्त्यरूपं जगत्कारकं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नदास्महा सदासत्वयोगं सदा सुरारीन्हरन्दं जगत्पालयन्तम् अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नमामः तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् अनेकागमयस्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः महा। तमस्तोमहारं जनाज्ञानभारं त्रयीवेदसारं परब्रह्मपारं मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः निजैरोषधीस्तर्पयन्तं करोखै सरौखान् खलाभित्सुधाविणीभिः दिनेषां संतापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः प्रकाशस्वूप नभोवायुप विकारादि हेदुं कला कालभूत अनेक्रियानेकशक्तिव सदाशक्प गणेश नमा प्रधानस्व महत धरावाम दिगीशादिपम असत्सत्व जगद्धेदुभूतं सदा विश्वरूपं गणेशं न दा स्मः त्वदीये मनस्तापयेदङ्घ्रियुग्मे जनो विघ्नसङ्खान्न पीडां लभेत लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेद वयं भ्रामिता सर्वदा ज्ञानयोगादलब्धा तवाङ्घ्रि बहून् वर्षपूगान् इदानीमवाप्तास्तवैव प्रसादप्रपन्नान् सदा पाहि विश्वम्पराद्य ब्रह्मोवाच एवं स्तुतो गणेशस्तु सन्धुष्टो भून्महामुने कृपया परयोप्येदोऽभिधातुं तान् प्रचक्रमे गणेश उवाच यदर्थं क्लेशितायूयं यदर्थमिह चा गदाः प्रीदोहमनयास्तुत्या वरं मत्तो वृणीतदं कृतं च मम यत्स्तोत्रं स्तोत्र राजमिति ख्यातं भविष्यति ममाज्ञया इदं यः पठेत् प्रादरुद्धाय धीमां संध्यां सदा भक्तियुक्तो विशुद्धः सपुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ब्रह्मोवाच यदि तद्वचनम् श्रुत्वा सन्धुष्टास्ते तमब्रुवन् तदीक्षया रचः सत्त्वतमो गुणसमुद्भवाः त्रय ऊचुः यदि तुष्टोऽसि देवेश सृष्टिसंहारकारक तवाङ्क्रिकमलेनोऽस्तु भक्तिरव्यचिभारिणी किम् चास्माम् भिक् प्रकर्तव्यमाज्ञापयदु नो भवान् अयमेव वरोऽस्माकं वाञ्छितोद्विरदानन इति श्रुत्वा पुनः प्राह गजाननः भविष्यति महाभागा मयि भक्तिर्दृढा हिव सङ्कष्ठानि यथा यूयं तरिष्यमहान्त्यपि भवत्ख्यात्यै प्रवक्ष्यामि कार्याणि च पृथक् पृथक् सृष्टिकर्ता भवब्रह्मन् रजोगुणसमुद्भवः पालनं गुरुविष्णो त्वं व्यापकसत्त्वसंश्रयः हर संहर सर्वं त्वं समोगुणसमुद्भवः ब्रह्मोवाच वेदशास्त्रपुराणानि सृष्टिसामर्थ्यमेव च ददौ गणेशोऽन्यां विद्यां ब्रह्मणे परमात्मने विष्णवे भगवान्प्रादाद् योगात् स्वच्छन्दरूपताम् एकाक्षरं षडर्णं च मन्त्रम् सर्वागमांस्तथा हराय भगवान् प्रादाचक्रिं संहरणेऽपि च ततो ब्रह्मादीन मनास्त्रैलोक्येशं जगद्गुरुम् उवाच प्राञ्चलिर्भूत्वा वरदं तमिभाननं ब्रह्मोवाच यथा गृहीतशक्तिस्तु वाच्यावाच्यं विवक्त्रि न तथानेकविधां सृष्टिमदृष्ट्वा क्वापि किञ्चन कर्तुं वापि विभोराज्ञा विभेदं कथमुत्सहे इध इदो वापीत्येवं प्राप्तं मया कथम् तदो दिव्यं चक्षु चक्षुप्रदायतं ब्रह्माणं वेदशास्त्रज्ञं तथा व्याकुलितं प्रभुः गजानन उवाच बहिरन्धशरीरे मे सङ्ख्यातीतानि पद्मजा ब्रह्माण्डानि त्वमद्यैव विभ्रमन्ति विलोकय ब्रह्मोवाच तदो गजाननेनासौ स्वोदरे श्वासवायुना नीतो ददर्शधातापि ब्रह्माण्डानि त्वनेकशः औदुम्बराणीवतरौ तेषु वामशकानि वा भेदयामास वा। तत्रैगम्बरमेण स्वतेजसा तदन्धः सकलां सृष्टिं ददर्शकमलासनः ब्रह्माणं चापरम् तत्र विष्णुमिन्द्रम् प्रजापदिं शङ्करम् भाष्करं वायुम् वनानि सरितोम्बुपम् सागरान् यक्षगन्धर्वानप्सरः किन्नरोरगान् ऋषीन्पुण्यजनान् साध्यान्मनुष्यान् पर्वतान् द्रुमान् उद्भिजान् जानजान् जन्तून् स्वेदजानण्ठजानपि पृथ्वीं च सप्तपादालान्यव्ययान्येकविंशतिं ददर्शविश्वं चाहं वै भावाभावं चराचरम् यद्यद्ब्रह्मा भेदयामास चाण्डं तस्मिंस्तस्मिन् सर्वमेवं ददर्श दृष्ट्वा भ्रान्तिं पूर्ववत् सम्प्रभेदे तेषामन्दं सर्वदा नाभ्यगच्छद नस्तादुम् नैव वा गन्तुं शशाकमलासनः उपविश्य तदो ब्रह्मतुष्टावद्विरदाननम् ब्रह्मोवाच वन्दे देवं देवदेवं गणेशं ब्रह्माण्डानां नैव सङ्ख्यायदङ्गे अभ्रोडूनां सागरे वाचषाणां कः सङ्ख्याता शर्कराणां च तीरे लज्जा नमेऽत्रास्ति सुरेन्द्रवद्यपादारविन्दं तव यद्विलोक्य भ्रान्दो भवं ज्ञाननिधौ प्रसन्ने मोक्षोऽपि तुच्छ किमुदान्यवार्ता दृष्टं च नानार्थयुधं सुरेश ब्रह्माण्डकूढं जठरे त्वदीये तादुम् हनेषदन्यदेवं शरणं न वेत्मि तदप्रसन्नो भगवानन्दो वै गजाननः बहिर्निष्कासयामास्रह्माणं खिन्नमानसं नास्ति तदनुयायिनम् तामसं च परं देवो ब्रह्मणा सगसङ्गतम् निःसारयामास विभुश्रुतिरन्ध्राद्गजाननः शयाते स्म तदङ्गेद बुभौ हरिहरौ सुखम् इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः ओ